श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अच्चतुर्थोऽध्यायः चार् प्रकारके प्रलय श्रीशोकुवाच कालस्ते परमाण्वादिर्विपरार्धावधिर्नृप कथतो युगमानं च शृणुकल्पलयावती चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते सकल्पो यत्र मनवन् चतुर्दश विषां पते तदन्ते प्रलयस्तावान् ब्राह्मीरात्रिरुदाशितां त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि एष नैमित्तिक प्रोक्त प्रलयो यत्र विश्वसे श्वेतेनन्ताशनो विश्वम् आत्मसात्कृत्य चात्मभू द्विपरार्धे त्वचित्रान्ते ब्रह्मणः परमेशिनः तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै एष प्राकृतको राजन् प्रलयो यत्र लीयते आण्डकोशस्तु सङ्घातो विघात उपसादिते परजन्तम् पर्जन्य शतवर्षाणि भूमौ राजन्न तदा निरन्यै शन्योऽन्यम् भक्ष्यमाणा सुधार्जिता क्षयम् <tip> जास्यन्ति शनकैः कालेनोपदृता प्रजाः सामुद्रम् दैहिकम् भौमम् प्रशंसामर्तको रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चते ततः संवर्तको वह्नि शङ्कर्षणमुखोत्थितः दहत्य दहत्य निलवेगोत्थ शून्यान् उपर्यध वरानथ उपर्यध समन्ताच्च शिखाभिर्वह्नि सूर्ययोः दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ततः प्रचण्ड पवनो वर्षाणाम् अधिकं शतं परसां वर्तको वाति धूम्रं कम्रजसा वृतं ततो मेघकुलान्यङ्ग चित्रवर्णान्यनेकशः शतं वर्षालि वर्षन्ती नन्दन्ति तत एको दशकं विश्वं ब्रह्माण्डविवरान्तरम् तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे भ्रस्तगन्धात् पृथिवे प्रलयद्वाय कल्पते अपां रसमथो तेजस्ता लीयन्तेऽ नीरसाः ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा लीयते चानिले तेजो वायोखं ग्रसते गुणम् स वै विशतिखं राजन्ततश्च नभसो गुणम् शब्दं ग्रसति भूतादिर् नभस्तमनुमूलीयते तैजस् तैजश्चेन्द्रियाण्यङ्गदेवान् वैकारिको गुणैः नहानग्रसत्यहङ्कारं गुणासत्त्वादयश्च तं ग्रस्ते व्याकृतं राजन् गुणान् कालेन चोदितम् न तस्य कालावयवै परिमा परिणामादयो गुणाः अनाद्यनन्दम् अव्यक्तं नित्यं कारणमव्ययं न यत्र वाचो न मनो न सत्वं तमो रजो वामहदादयो मे न प्राणबुद्धिन्द्रियदेवता वा न सन्निवेशखलु लोककल्पः न जाग्रन्न च तत्सु सुप्तं न खं जलं भूरनिलोऽग्निनर्कः संसोप्तवच्छुन्नवदत्ततर्कं तन्मूलभूतं पदमामनन्ति लयप्राकृतिकोशे स पुरुषाव्यक्तयोर्यदां शक्त्या सम्प्रलीयन्ते विवशा कालविद्रुताः